आप्तैरलुब्धैः क्रमिकैस्ते च कश्चिदनुष्ठिताः कश्चिद्राजन् कृतान्येव कृतप्रायाणि वापुनह। पुनः ऋदुस्ते वीरकर्माणि नवाप्तानि कानिचित् कच्चित् कारणिका धर्मे सर्वशास्त्रेषु कोविदाः कारयन्ति कुमारांश्च सर्वशः कच्चित् सहस्रैर्मूर्खाणामेकम् क्रीणासि पण्डितम् पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निः श्रेयसम्परम् कच्चिद्दुर्गाणि सर्वाणि धनधन्यायुधो दतैः यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैहि एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः राधानम् राजपुत्रम् राजा वा प्रापयेन्महतीम् श्रियम् कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च कच्चिद्विषामविदितः प्रतिपन्नश्च सर्वदा नित्ययुक्तो रिपून् सर्वान् वीक्षसे रिपुसूदन कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः अनसूयुरनुप्रष्टा सत्कृतस्ते कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः हुतम् च होष्यमाणम् च काले वेदयते सदा कच्चिदङ्गेषु निष्णातो ज्योतिषः प्रतिपादकः उत्पातेषु च सर्वेषु दैवज्ञः कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः जघन्याश्च जघन्येषु भृत्याः कर्म